अथाष्टादशाधिकशततमः सर्गः सा प्रतिपूज्यवचो मन्दम् प्रवक्तुमुपचक्रमे नैतदाश्चर्यमार्यायाम् यन्मान् त्वमनुभाषसे विदितम् त्वममाप्येतद्यथा नार्याः प्रतिर्गुरुः यद्यप्येष भवेद्भर्ता अनार्यो वृत्तिवर्जितः अद्वैधमत्र वर्तव्यम् तथाप्येष मया भवेत् किम् पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः स्थितानुरागो धर्मात्मा मातृवत् पितृवत्प्रियः याम् वृत्तिम् वर्तते रामः कौसल्यायाम् महाबलः मेव नृपनारीणामन्यासामपि वर्तते सकृद्दृष्टा नृपवत्सलः मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् आगच्छन्त्याश्च विजनम् वनमेवम् भयावहम् हि मेश्वश्रवा हृदये यत् स्थिरम् मम पाणिप्रदानकाले च यत्पुरात्वग्निसन्निधौ अनुशिष्टम् जनन्यामे वाक्यं वाक्यम् तदपि मे धृतम् न विस्मृतम् तु मे सर्वम् वाक्यैस्वैर्धर्मचारिणी पतिशुश्रूषणाम् नार्यास्तपो नान्यद्विधीयते सावित्रीपतिशुश्रूषाम् कृत्वा स्वर्गे महीयते तथा वृत्तिश्च याता त्वम् पतिशुश्रूषया दिवम् वरिष्ठा च दिविदेवता रोहिणी न विना चन्द्रम् मुहूर्तमपि दृश्यते एवंविधाश्च प्रवरा स्त्रियो भर्तृदृढौ व्रताः देवलोकेन हीयन्ते पुण्येन कर्मणा ततो न सूया सम्भृष्टा वचः शिरसाघ्राय चोवाच मैथिलीम् हर्षयन्त्युता नियमैर्विविधैराप्तम् तपो हि तत्संश्रित्य बलम् सीते छन्दये त्वाम् शुचिव्रते उपपन्नम् च युक्तम् च वचनम् तव मैथिली प्रीता चास्म्युचिताम् सीते करवाणि प्रियम् च किम् तस्यास्तद्वचनम् श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपो बलसमन्विता सा त्वेव मुक्ता धर्मज्ञातया प्रीततराभवत् सफलम् च प्रहर्षन्ते हन्त सीते करोम्यहम् इदम् दिव्यम् वरम् माल्यम् वस्त्रमाभरणानि च अङ्गरागम् च वैदेहि महार्हमनुलेपनम् मया दत्तमिदम् सीते तव गात्राणि शोभयेत् अनुरूपमसङ्क्लिष्टम् नित्यमेव भविष्यति अङ्गरागेण दिव्येण लिप्ताङ्गीजनकात्मजे शोभयिष्यसि भर्तारम् यथा श्रीर्विष्णुमव्ययम् सा वस्त्रमङ्गरागम् च भूषणा निःस्रजस्तथा मैथिलीप्रतिजग्राह प्रीतिदानमनुत्तमम् प्रतिगृह्य च तत्सीता प्रीतिदानम् यशस्विनी सृष्टाञ्जलिपुटाधीरा समुपास्ततपोधनाम् तथा सीतामुपासीना मनसूया वचनम् प्रष्टुमारेभे कथाम् काञ्चिदनुप्रिया स्वयम्वरे किल यशस्विना राघवेणेति मेसीते सीते कथा श्रुतिमुपागता ताम् कथाम् श्रोतुमिच्छामि विस्तरेण च मैथिली यथाभूतम् च कार्त्स्येन एवमुक्ता तु सा सीता तापसीम् श्रुयतामिति चोक्त्वा वै कथां। कथाम् वीरो जनको नाम धर्मवित् क्षत्रकर्मण्यभिरतो न्यायतः शास्ति मेदिनी तस्य लाङ्गलहस्तस्य कृशतः क्षेत्रमण्डलम् अहङ्किलोत्थिता भित्त्वा जगती नृपतेः सुता समाम् दृष्ट्वा नरपतिर्मुष्टिविक्षेप पांसुगुण्ठितसर्वाङ्गीम् विस्मितो जनको जनकोऽभवत् अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ममेयन्तनयेत्युक्त्वा स्नेहो मयि निपातितः च वा उक्ता प्रतिमानुषी किल एवमेतन्नरपते धर्मेण तनया ततः प्रहृष्टो धर्मात्मा पिता मे अवाप्तो विपुला वृद्धिम् मामवाप्य नराधिपः दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणे तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् पतिसंयोगसुलभम् वयो दृष्ट्वा तु चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः सदृशाच्चापकृष्टाच्च लोके कन्यापिता प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ताम् धर्षणामदूरस्थाम् सन्दृश्यात्मनिपार्थिवः चिन्तार्नवगतः पारम् नाससादाप्लवो यथा अयो निजाम् हि माम् ज्ञात्वा नाध्यगच्छत् स चिन्तयन् सदृशम् च महीपालः पतिम् मम तस्य बुद्धिर्यम् जाता चिन्तयानस्य सन्ततम् स्वयम् वरम् तनोजाय करिष्यामीति धर्मतः महायज्ञे तदा तस्य वरुणेन महात्मना दत्तं धनुर्वरम् प्रीत्या तूणी चाक्षय्यसायकौ असञ्चाल्यम् मनुष्यैश्च यत्नेनापि च गौरवात तन्न शक्ता न स्वप्ने स्वप्नेष्वपि न पित्रा व्याहृतम् सत्यवादिना समवाये नरेन्द्राणाम् पूर्वमामन्त्र्यपार्थिवान् इदम् च धनुरुद्यम्य सज्जम् यः कुरुते नरः तस्य मेदुहिता भार्या भविष्यति न संशयः तच्च दृष्ट्वा धनुश्रेष्ठम् गौरवाद्गिरिसन्निभम् अभिवाद्यनृपा जग्मुरशक्तास्तस्य तोलने सुदीर्घस्य तु कालस्य राघवोऽयम् महाद्युतिः विश्वामित्रेण सहितो यज्ञम् द्रष्टुम् समागतः लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः विश्वामित्रस्तु धर्मात्मा मम पित्रासु पूजितः प्रोवाच च पितरम् तत्र राघवौ रामलक्ष्मणौ सुतो दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ धनुर्दर्शय रामाय राजपुत्राय दैविकम् इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् तद्धनुर्दर्शयामास राजपुत्राय दैविकम् निमेषान्तरमात्रेण तदानम्यमहाबलः ज्याम् समारोप्य झटिति पूरयामास वीर्यवान् तेनापूरयता मध्ये भग्नम् तस्य शब्दो ततोऽहम् तत्र रामाय पित्रा सत्याभिसन्धिना उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् दीयमानान्न तु तदा प्रतिजग्राह राघवः अविज्ञायपितुच्छन्दमयोऽध्याधिपतेः प्रभोः ततः श्वशुरमामन्त्र्य वृद्धम् दशरथम् नृपम् मम पित्रा त्वहम् दत्ता रामाय विदितात्मने मम चैवानुजासा ध्वी ऊर्मिकाशुभदर्शना भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् तथा तस्मिन् स्वयम् वरे अनुरक्तास्मि वरम् इत्यार्षे श्रीमद् आदिकाव्ये अयोध्याकाण्डे अष्टादशाधिकशततमः सर्गः